मुद्गलपुराण खंडम एयट धूम्रवर्णचरतम अध्या तर्टी वैशाखमासमत्म्ये नाजनोद्धार वर्णनम श्रीगणेशा नम सूत उच वैश्ययो को श्रुत्वा वैशाखमाहात्म्यं काणेशं मुदिदोऽ ब्रवीद सकुटुम्बपरो नित्यं व्यवसायं चकारः स्नात्वा वैशाखमासेतु दीपदानपरो भवद पूर्णिमायां निशायां स स्वगृहं व्यवसायं परित्यज्य मार्गसंस्थो बभूवः तत्र तं भक्षितुं कोऽपि राक्षसक्रूररूपधृक आययौ नगरस्यैव वीद्यां विश्वावसुं मुने तमागतं समालोक्य विश्वावसुस्सुविह्वलः सस्मारगणपं चित्ते पपादभूतले भयाद पमालोक्य धरा संस्थम् मुने जातिस्मरो बभूवापि रुरोद तं प्रमार्जयन् ततो विश्वा वसुं वैश्यं सावधानं क्षणार्धदः तं प्रणम्य महाभागम् राक्षसस्तु वचोब्रवीद धूम्र उवाच धूम्र नामानमेव मां विद्धि वैश्यकुलोद्भव तव दर्शनमात्रेण स्मरन् जादिं न संशयः पूर्वजन्मनि विश्वामित्रकुले पापकर्म पापकर्मपरायणः मया शूद्राय दीक्षा दत्ता पौराणिकी परा मात्सी स नित्यमेवेदं पुराणमपठन्मुदा ब्राह्मणैर्निन्दितं तत्र स्वधर्मदूषकं परम् मृदं मां यमदूता वैगृह्य जग्मुस्वमालयं चित्रगुप्त उवाचाधयमं निधिविशारदं स्वधर्मनिरतश्चायं सदाचारयुधो भवद मास्यं सविप्रशुद्राया विप्रशूद्राया शिक्षापयत् सुमन्दधिः ब्रह्मणैर्वाचितः पापी पापकर्मपरो भवद तच्छ्रुत्वा धर्मराजस्तमुवाचक्रोधसंयुधः मां वीक्ष्य ताड्यतां दूदस्तधेति स चकारः राक्षसो वैश्यसत्तम जादोऽत्र क्षुधयाविष्टो भ्रमामि तु दिवानिशम् त्वां दृष्ट्वा पूर्वपुण्येन जातिस्मर इहा अधुना तारयस्व त्वं संसारान्महामदे नो चेद्देहपरित्यागं करिष्यामि त्वदग्रतः एवमुक्त्वा प्रणम्यादौ रुरोद राक्षसो महान् तदो दयायुधो वैश्यस्तमुवाच सुविस्मिदः किं करोमि वदप्राज्ञ धूम्रते तरणाय धूम्र उवाच वैशाखे दीपदानं त्वं करोषि ढुण्डिसन्निधौ तद्भवं देहि मे पुण्यं तेन मुक्तो भवाम्यहं विश्वा वसुरुवाच दीपदानं गणेशाग्रे चेत् करोति नरोत्तमः अपारं तद्भवं पुण्यं न कदाचन तथापि शृणो मे वाक्यमेकवर्तिजदीपतः यज्जातं तद्गृहाणत्वं तेन मुक्तो भविष्यसि एवमुक्त्वा ददौ तस्मै पुण्यं दीपसमुद्भवं एकवर्तिकृतं पूर्णं गणेशाग्रे महामुने ततस्तत्र समायाद विमानवरसंस्थिताः गणेश राक्षसं धूम्रं गृह्य स्वानन्दमाययुः एवं व्रतस्य च गणेशानां महाभाग तत्र किं वर्णयाम्यहम् अन्यच्च शृणु विप्रर्शे वैशाखमासगम् महद चरित्रं सर्वपापघ्नं श्रवणात्पठनान्नृणाम् कच्चिच्छूद्रो महापापी गणेशालयमाययौ चौर्यार्थं तत्र रात्रौ वस्त्रग्रहणलालसः समीपे गणराजस्य ययौ वैशाखमासके दीपम् तेजोविहीनं स ददर्शठुण्डिसन्निधौ सवर्तिं चालयामास कृत्वा दीपं सुतेजसं वस्त्रग्रहणसंसक्तो बभूवे चादिदूषकः ततो कस्मान्नरं तत्र राज्ञकं च समागतं देवालस्य रक्षणार्थं तं दृष्ट्वा स पपालः तदोहाकृतं तेन सद्यो लोकैः समागतैः तैर्हदो योजने दूरं मृदो या यामैर्हदो भवद भुक्त्वा नानाविधां याम्यां यादनां यमसन्निधौ समानिदं यमप्राह तं शूद्रं क्रोधसंयुधः वर्तिस्त्वया गणेशाग्रे चालिता दीपसंस्थिता तेन प्रकाशकस्तत्र बभूव सुखदायकः तस्य पुण्यं त्वया प्राप्तम् तत् पुराधवा पापानि वद पापिष्ठ करिष्यामि त्वदीप्सितम् शूद्रोऽयमम् जगदादौ पुण्यम् प्रभो भोक्तुम् पश्चान्महत्पापम् तथेति स चकारः ततः वैश्यजो जादो नाम्ना धर्मप्रियो महान् नानाभोगयुधो नित्यं यौवनस्थो बभूवः गणेशभक्तोऽसौ तत्र प्रीतियुक्तो महामुने दीपदानं विशेषेण चकार हर्षसंयुधः अन्ते पापविहीनः जगाम जगामगणनायकम् ब्रह्मभूतो बभूवापि पूर्वसंस्कारभावतः एवं किञ्चिच्च संस्कारादुद्धरन्दिजनादयः वैशाख जन् सन्देहकदि तत्र ब्रुवे मुने इदं वैशाखमासस्य च जित्रं भुक्रिमुक्रिदं कथितं समासेन नानाभोगकरं परं यः पढेच्छृनुयाद्वापि स सर्वार्थयुधो भवेद अन्धे गणपदौ लीनो भवेद् भावपरायणः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णजरिते वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः ओम्